हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्री अध्यात्मरामायणे अरण्यकाण्डे चतुर्थः स्वर्गः श्रीमहादेव उवाच मार्गे व्रजन्द दर्शाथे शैलशृङ्गम् विवस्थितं वृद्धं जटायुषं राम किम् एतदिति विस्मितः धनुरानय सौमित्रे राक्षसोऽयम् पुरस्थितः इत्याहलक्ष्मणम् रामो अनिश्याम् ऋषिभक्षकम् तच्छ्रुत्वा रामवचनम् गृध्रराड्भयपीडितः वधार्होऽहं दते राम पितुतेहं तेऽहं प्रियसखा जटायुव नाम भद्रम् ते प्रियकृत्तव पञ्चवट्याम् अहम् वस्ये तवैव प्रियकाम्यया मृगयायाम् कदाचित्तु प्रयाते लक्ष्मणेऽपि च सीता जनककन्या मे रक्षितव्या प्रयत्नतः श्रुत्वा तद्वृद्धवचनम् रामस्वस्तेहमब्रवीत् साधु वृद्धमहाराज तथैव कुरु प्रियम् अत्रैव मे समीपस्थो नातिदूरे वेवसन् इत्यामन्त्रितमालिङ्ग्य ययो पञ्चवटीम् प्रभो लक्ष्मणेन सह भ्रात्रा सीतया रघुनन्दनः गत्वा ते गौतमीतीरम् पञ्चवट्याम् सुविस्तरम् मन्दिरम् कारयामास लक्ष्मणेन सुबुद्धिना तत्रते ते निवसन् सर्वे गङ्गाया उत्तरे सटे कदम्बे पनसाम्राधि फलवृक्ष समाकुले विविक्ते जनसंवाद वर्जिते निरुजस्थले विनोदयन् जनकदाम् लक्ष्मणेन विपश्चिता अध्युवास सुखं रामो देवलोक इव कन्दमूलफलादीनि लक्ष्मणो नो दिनं तयोः आनीय प्रददो राम रवा तत् परमाणसः धनुर्बाणाधरो नित्यम् रात्रौ जागर्ति सर्वतः स्नानं कुर्वन्त्यनुदिनं त्रयस्ते गौतमी जले उभयोर्मध्यगासीता कुरुते च गमागमौ सलिलम नित्यम् लक्ष्मणः प्रीतमानसः सेवतेऽह प्रीत्या एवम् आसन् सुखं तया एकदा लक्ष्मणो रामं एकान्ते समुपस्थितम् विनया वनतो भूत्वा पप्रच्छ परमेश्वरम् भगवान् श्रोतुमिच्छामि मोक्षस्य एकान्तिकीं गतिम् तत्तः कमलपत्राक्ष संक्षेपाद् वक्तुमर्हसि ज्ञानं विज्ञानसहितं भक्तिवैराग्य बृंहितम् आचक्ष्व मेर्घोषेत् वक्तानान्योऽस्ति भूतले श्रीराम उवाच श्रो वक्षामिते वत्स गुह्याद्गुह्यतरं परं यद्विज्ञाय न रोजह्यात् सद्यो वैकल्पिकम् भ्रमं आदौ माया स्वरूपं ते वक्ष्यामि तदनन्तरम् ज्ञानस्य साधनं पश्चात् ज्ञानं विज्ञानसंयुतं ज्ञेयं च परमात्मानं यज्ञात्वाच्यते भयात् अनात्मने शरीरादौ आत्मबुद्धिः स्वया भवेत् सैव संसारः परिकल्प्यते रूपे द्वे निश्चिते पूर्वम् माया कुलनन्दन विक्षेपावर्णे तत्र प्रथमं कल्पये जगत् लिङ्गाद्या ब्रह्म पर्यन्तम् स्थूलसूक्ष्म विभेदतः अपरं तु अखिलम् ज्ञान रूपम् आवृत्य तिष्ठति मायया कल्पितं विश्वम् परमात्मन केवले रज्जो भजङ्गवद्भ्रान्त्या विचारे नास्ति किञ्चन श्रूयते दृश्यते यद्य स्मार्यते वा असदेव हि यथा स्वप्न मनोरथो देहैव हि संसार वृक्षमूलं दृढं स्मृतं तन्मूलपुत्रदारादि बन्ध किं तेऽन्यथात्मनः देहस्तु स्थूलभूतानां पञ्च तन्मात्रपञ्चकम् अहङ्कार च बुद्धि च इन्द्रियाणि तथा दश चिदाभासो मनश्चैव मूलप्रकृतिरेव च एतत्क्षेत्रमिति ज्ञेयम् देह इत्यभिधीयते एतद् लक्षणो परमात्मा निराम तस्व साधना मे श्रो जीव पर्यायो नात्र भेदधी, माना भेदधि महान भाव तथा हिंसाधिवर्जनम्षेपाधिशनम सर्वकृता तथा मनोवाकाय सद्भक् सदगुर परिसेवनम बाह्या संशुद्धि स्थिरता सत्क्रिया मनोवाकाय निरीहता निरहंकारता जन्म जरा दिया तथा आसक्ति स्नेशन्यम पुत्र दार धनादिषु इन निष्ठा चित्तस्य समता तथा मयि सर्वात्मके रामे धनन्य विषया मतिः जनसम्बाधरहित शुद्धदेश निषेवनम् प्राकृतये जनसङ्घै च हरति सर्वदा भवेत् आत्मज्ञाने सदोद्योगो वेदान्तार्थवलोकनम् उक्त एतै भवेद् ज्ञानम् विपरीतये विपर्ययः बुद्धिप्राणमनो देहातेभ्यो विलक्षणः चिदात्माहं नित्यशुद्धो बुद्ध एवेति ये निश्चयं येन ज्ञानेन संवित्ते तद् ज्ञानं निश्चितं च मे विज्ञानं च तदेवैत साक्षात् आत्मा सर्वत्र पूर्णः चिदानन्दात्मकोऽव्ययः बुद्ध्याद्यु उपाधिरहितः परिणामादिवर्जितः स्वप्रकाशेन देहादीन् भासयन् अनपावृतः एक एव द्वितीयश्च सत्यज्ञानादिलक्षणः असङ्घ स्वप्रभो द्रष्टा विज्ञानेनावगम्यते आचार्यशास्त्रोपदेश ऐक्यज्ञानं यदा भवेत् आत्मनोर्जीव परयो मूरा विद्या सदैव लियते लीयते कार्यकरणे सहैव परमात्मने सावस्था मुक्तिरित्युक्ता ह्युपचारोऽयमात्मनि इदं मोक्षे स्वरूपं ते कथितं रघुनन्दन ज्ञानविज्ञानवैराग्य सहितम् मे परात्मनः किञ्चेतद् दुर्लभम् मन्ये मद्भक्ते विमुखात्मनां चक्षूक्ष्मतामपि यथा रात्रौ सम्यग् न दृश्यते पदम् दीप समेतानाम् दृश्यते सम्यगेव हि एवन् मद्भक्तियुक्तानाम् आत्मा सम्यक् प्रकाशते मद्भक्ते कारणम् किञ्चित् वक्ष्यामि शृणु तत्त्वतः मद्भक्तसङ्गो मत मत्सेवा मद्भक्तानां मत निरन्तरम् एकादिशी उपवासादि मम पर्वानुमोदनम् मत्कथाश्रवणे पाठे व्याख्याने सर्वधारथिः मत्पूजा परिनिष्ठा च मम मा नामानुकेतनम् एवं सततयुक्तानाम् भक्ति अव्यभिचारिणी मयि सञ्जायते नित्यम् तथा किम् अवशिष्यते अतो मद्भक्तियुक्तस्य ज्ञानम् विज्ञानमेव च वैराग्यम् च भवेत् शीघ्रम् ततो मुक्तिम् अवाप्नुयात् कथितम् सर्वमेतस्ते तव प्रश्नानुसारतः अस्मिन् मनः समाधाय तु येत्सु मुक्तिभा वक्तव्यद यति मद्भक्ताय प्रदात आहूया प्रयत्न यदम तू पठेन्त्य श्रद्धा भक्ति समन्व अज्ञान पटर भ्रांत विधू पर पिमुच्य भक्तानाम् मम योगिनां सुविमले स्वान्तातिशान्तात्मनाम् मत्सेवाभिरतात्मानाम् च विमले ज्ञानात्मनाम् सर्वदा सङ्गम् यः कुरुते सदोद्यतमती तत्सेवनान्नन्य मोक्षतस्य करे स्थितोहमनिशम् दृश्यो भवे नान्यथा इति श्रीमदध्यात्मरामायणे मामहसंवादे अरण्यकाण्डे चतुर्थः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु